हरि श्री श्रीसीता रामचन्द्राभ्य नमः अथ श्रीमद्वाल्मीकि रामायणे अयोध्याकाण्डे सप्त त्रिंश सर्गः स्वलक्ष्मणेन श्रीरामेण वल्कलवस्त्रीय धारणम् सीताया वल्कुलधारणे नान्तः पुरस्त्रीणाम् खेदौ गुरूणा वसिष्ठेन कैकीम् निर्भर्त्य सीताकर्तृकवल्कलधारणस्य विरोधश्च महामातव च श्रुत्वा रामोदश रथम् तदा अभ्यभाषतवाक्यम् तु विनयज्ञो विनीतवत् त्यक्तभोगस्य मे वने वन्येन जीवतः किम् कार्यम् अनुयात्रेण त्यक्तसङ्गस्य सर्वतः यो हि दत्त्वा द्वश्रेष्ठम् कक्षायाम् मनः रज्जुस्नेहेन किम् तस्य स्यजतः कुञ्जरोत्तमम् तथा ब्रह्मा सताम् श्रेष्ठ किम् भजन्या जगत्पते सर्वाण्यैवानुजानामि चिरान्येवानयन्तु मे कनित्र पिटके चोभे समानाय च गच्छत् चतुर्दश वलेवासम् वर्षाणि वसतो मम <Sess> अथ चीराणि कैकेयी स्वयम् आधृत्य राघवम् उवाच परिधत्वेति जनौघे निरपत्रमा स चीरे पुरुष व्याघ्रे कैकेय्या प्रतिगृह्यते सूक्ष्मवस्त्रम् अवक्षिप्य मनीवस्त्राण्यवस्त्रः लक्ष्मण चापि विहाय वसनेषु तापसाच्छादने चैव जग्राह पितुरग्रतः अखात्म परिधानार्थम् सीता कौशेयवासिनी सम्प्रेक्ष्य चिरं तन्त्रस्ता स्पृशति वा गुरामिव शाव्यपत्र प्रमाणैव प्रग्रूह्य च सुदुर्मनः कैकेय्या कुशचीरे जानकी शुभलक्षणा आश्रु सम्पूर्ण नेत्रा च धर्मज्ञा धर्मदर्शिनी गन्धर्वराज प्रतिमम् भर्तारम् इदमब्रवीत् कथं नु चिरम् बध्नन्ति मुनयो वनवासिनः इति अकुशलासीत सा मोह मुहुमुहुः कृत्वा कण्ठे स्म सा चिरम् पाणिनः स्थो हि अकुशलः तत्र व्रीडिताय जनकात्मजा तस्या सख्यमागत्य रामो धर्मभृताम्बरः चिरम् बवन्धम् सीताय कौशेयस्योपरि स्वयं रामम् प्रेक्ष्य सुसीताय बध्नन्तं चिरमुत्तमम् अन्तपुरचर नार्यो ममो चूरुवारिणेत्रयम् ऊटूच पर रामं जलित तेजस वत्स नुक् वनवासे मनस्वी पितवाक्यान गतनम मनम तवदर्शनम से न सफल प्रभो लक्ष्मन वनम गुत्र नेयम् अर्हति कल्याणि वस्तुम् तापसवद्वने कुरु नो याचनाम् पुत्र सीता तिष्ठतु भामिनी धर्म नित्य स्वयं स्थातुम् न हि इदानीम् त्वमिच्छसि तासामेवम् विधाण्वन्द शरथात्मज बबन्धैव तथा चिरम् सीतया तुल्यशीलय चिरे गृहीते तु तया स बाष्पो नृपते निवार्य निवार्यसी तां वसिष्ठो वाक्यम वाक्यमब्रवीत् अतिप्रवृत्ते दुर्मेधे कैकेयी कुल पान्सी वञ्चयित्वा तु राजानम् न प्रमाणेऽवतिष्ठसि न गन्तव्यम् वनं देव्या प्रीतया शीलवर्जिते अनुष्ठास्यति रामस्य सीताप्रकृतमासनम् आत्मा हि दारा सर्वेषाम् दार सङ्ग्रहवर्तिनाम् आत्मीयम् इति रामस्य पालयिष्यति मेदिनीम् अथ यास्यति वैदेहि वनम् रामेण सङ्गत वयम् अत्र न यास्याम पुरम् गमिष्यति अन्तपाला च यास्यन्ति यत्र राघव सहोपजीव्यम् राष्ट्रम् च पुरं च स परिच्छदम् भर्तश्च स शत्रुघ्नः चीरवासावनेचरः वने, वने वसन्तम् काकुत्स्थम् अनुवत्स्यति पूर्वजम् ततः गतजनाम् वसुधाम् पादपैतः सम्येकाशाधि दुर्वृत्ताय प्रजानाम् अहिते स्थिताय न हि यत्र रामो न भूपति तद्वनम् भविता यत्र रामो निवक्ष्यति न नही ह्य दत्ताम् महीम् पित्राय भरत शास्तुमिच्छति त्वयि वा पुत्रवद्वर्तुम् यद्यपि त्वम् क्षितितर गगनम् चोत्पतिष्यसि पितृवंशे चरित्रज्ञ सोऽन्यथा न करिष्यति तत्त्वया पुत्रगर्धिन्या पुत्रस्य कृतमप्रियम् लोकेन हि स विद्येत यो न रामम् मनोवृतः द्रक्षस्यद्यैव ग्राण पाप तदुन्मुखा अथोत्तम देवी देषाए व्यपनीय चीरम न एकस्य रामस्य वने निवारस फया वृत कैकेजपुत्री विभूषि चेयम् प्रतिकर्म नित्य वसत्वरण्ये सह राघवेण यानैश्च मुख्यै परिचारकै च सुसंवृतागच्छतुराजपुत्री वस्त्रै च सर्वैः सहितैर्विधान्यै नैयम् मृता तस्मिन् तथा जल्पति विप्रमुख्ये गुरो नृपस्यापतिमप्रभावे नैव स्म सीता विनिवृत्त भाव प्रियस्य भवतु प्रतिकारकाम इत्यार्थे श्रीमद् रामायणे वाल्मीकि आदिकाव्ये अयोध्याखण्डे सप्तत्रिंशतर्यः श्रीसीता रामचन्द्रार्पणमस्तु